ीश्वं दर्पणदृश्यमानलगरी तुल्यम् निदान्तर्गतम् पश्यन्नात्मनि मायया बहिर्वो भूतै यथा निद्रया य साक्षी कुरु ते प्रबोधसमये स्वात्मानमेवाद्वयम् अस्मै श्रीगुरुमूर्तये नम इदम् श्रीदक्षिणामूर्तये तस्मै श्रीगुरुमूर्तये नम इदम् श्रीदक्षिणामूर्तये मेजशान्तिर्वाङ्कुरो जगदिदं प्रा निर्विकल्पं पुन मायाकल्पितदेशकालकलना ते चित्रचित्रीकृतम् मायावीवजीविन्दयत्यपि महा योगीवयश्रीक्षया तस्मै श्रीगुरुमूर्तये न म इदम् तै दक्षिणामृतये यस्यैव स्फुरणं सदात्मकशत कल्पार्थकं भासते साक्षात् तत्त्वमसेतिवेदवत् सारो बोधयद्याश्रितान् यः साक्षात्करणाद्भवे न पुनरा प्रीतिर्भवाम्भो निधौ तस्मै श्रीगुरुमूर्तये न मयिनम् श्रीदक्षिणामूर्तये नाना छिद्रघटोदर स्थितमहा दीपप्रभास्वरम् ज्ञानं यस्य तु चक्षुरादिकरुणा बहिं द्वारा बहिः स्पन्दति जानामीति तमेव भान्तमनुभा एतसमस्तं जग तस्मै श्रीगुरुमूर्तये न मिदम् श्रीदक्षिणामूर्तये देहं प्राणमपिन्द्रियाण्यपि चलाम् बुद्धिं च शून्यं विदुः स्त्रीबालान्दजटोपमास्त्वहमिते भ्रान्ताभिसंवादिद विदु। माया सिविलासकल्पितमः मोहसंहारिणे तस्मै श्रीगुरुमूर्तये न वैदम् श्रीदक्षिणामूर्तये राहु गृहस्तदिवाकरेन्दुसदृशो माया समाच्छादना सन्मात्रकरणोपसंहरणतो जो भूषु सोक्तपुमान् प्राजस्वाप्समिति प्रबोधसमये य प्रत्यप्यज्ञायते तस्मै श्रीगुरुमूर्तये न म इदम् श्री दक्षिणामूर्तये बाल्यादिष्वपि जाग्रदादिसुतथा सर्वा सर्वा स्वस्था स्वपि यावृत्तानुवर्तमानमहिमे अन्तस्फुरन्तं सदा स्वात्मानं प्रगटीकरोति भजतां यो मुद्रया भद्रया अस्मै श्रीगुरुमूर्तये नम इदम् श्रीदक्षिणामूर्तये ेषं पश्यति कार्यकारणतया स स्वामी सम्बन्धत शेष्याचार्यतया तथैव पितृपुत्रा आत्मना भेदत स्वप्ने जाग्रतिवाय एष या परिभ्रामित तस्मै श्रीगुरुमूर्तये न मिलम् श्रीदक्षिणामूर्तये मूरभ्यांशलोलिलोम्बरमहा नाथो हिमांसोपुमान् एत्याभातिचराचरात्मकमिदम् यस्यैव मूर्त्यष्टकम् नाना किञ्चन वेद्यतो विमृशताम् यस्मात् यस परस्माद्विभो तस्मै श्रीगुरुमूर्तये न वेदम् दक्षिणामूर्तये सर्वात्मत्वमिति स्फुटीकृतमिदं यस्यादमोऽस्मि स्तवे तेनाश्च श्रवणात्तदर्थमनना ज्ञानाच्च सङ्कीर्तना सर्वात्मत्वमहाविभूतिसहितम् सादिश्वरस्त्वं सत सर्वात्मत्वमहाविभूतिसहितं सादिश्वरस्त्वं स्वत सिद्धिस्तत्पुनरष्टधापरिणतम् वैशल्यमव्याहतम् वटवीटपि समीपे भूमिभागे निषन्नं सकलमुनिजनानां ज्ञानदातार मारा त्रिभुवनगुरुमीशं जननमरणदुःख छेदक्षं न भामि चित्रं वटतरोर्मूरे वृद्धा शिष्या गुरोर्जुवा गुरोस्तु मौन व्याख्यानं शिष्यास्तु छिन्नशङ्खया ॐ नमः प्रणवार्थाय शुद्धज्ञानैकमृतये निर्मलाय प्रशान्ताय दक्षिणामूर्तये नमः निधये सर्वविद्यानां निषदे भवरोगिनां। गुरवे सर्वलोकानां दक्षिणामूर्तये नमः मौनव्याख्या प्रकटित परब्रह्मतत्त्वं युवानम् वरसिष्ठान्तेव सदृशी गणैरावृतं ब्रह्मनिष्ठै आचार्येन्दं करकलित चिनमुद्रमानन्दरूपम् स्वात्मा रामं मुदित वदनं दक्षिणामूर्तिमीडे इति दक्षिणामूर्तिस्तोत्रं